गर्गसंहितखण्डं सेवन् विश्वजित्खण्डम् अध्यायम् सिक्स् श्रीनारद उवाच युद्धं जित्वाधकालिङ्गम् प्रद्युम्नो यादवेश्वरः जगामरुधन्वानं जलं वैश्वानरो यथा गिरिदुर्गसमायुक्तम् धन्वदेशाधिपं गयम् उद्धवम् प्रेषयामः यादवेश्वरः गिरिदुर्गे गदसाक्षादुद्धवो बुद्धिसत्तमः सभामेत्यगयम् प्राह शृणु राजन्महामते उग्रसेनो यादवेन्द्रो राजराजेश्वरो महान् जम्बूद्वीपनृपान् जित्वा राजसूयम् करिष्यति परिपूर्णसम परिपूर्णतमः साक्षात् श्रीकृष्णो भगवान् स्वयम् असङ्ख्यब्रह्माण्डपतिर्मन्त्री तस्या भवद्धरीः तेन वै प्रशीदः साक्षात् प्रद्युम्नो धन्विनाम् वरः शीघ्रम् तस्मै बलिं कुलकौशलहेतवे श्रीनारद उवाच श्रुत्वा किञ्चित् प्रकुपिदो वीर्यशौर्यमदोद्धतः उद्धवम् प्रासनृपदीर्गयो नाम महाबलः गय उवाच बलिं तस्मै न दास्यामि विनायुद्धं युद्धं महामदे अल्पकालेन यदवो गदा वृद्धिं भवादृशाः इत्युक्त उद्धवो राजन् चम्बरारिं समेत्य सः सर्वेषां यादवानां च शृण्वदां प्रशशं सः तदैव रुक्मिणी पुत्रो गिरिदुर्गम् समाययौ तत्सैन्यै यादवैः सार्धम् घोरम् युद्धम् बभूवः चोर्णयन् गजपादैश्च नागरान् भूजनान् द्रुमान् अक्षौहिणीभ्य अक्षौहिणीभ्याम् संयुक्तो गयो योद्धुम् विनिर्ययौ रथिनो रथिभिस्तत्र गजवाहा गजैः सह अश्ववाहैरश्वाह वीरा वीरैः परस्परम् युयुधुस्तीक्ष्ण बाणौखैश्चर्मखड्गसदर्ष्टिभिः पाशै परश्वधैराजन् चदघ्निभिर्भुषुण्डिभिः मन्यमानाश्च यदुभिर्गयवीरा भयातुराः सर्वे स्वं स्वं रथं त्यक्त्वा दुद्रुगुस्ते दिशो दश पलायमाने स्वबले गयो नाम महाबलः एकाकी प्रययौ योद्धुं धनुष्टङ्कारयन्मुहुः दीप्तिमान् कृष्णपुत्रस्तु धनुर्बाणैरिपोर्हयान् येकेन सारथिम् जघ्ने द्वाभ्याम् केतुम् समुच्छ्रितम् रथम् च बाणविंशत्या कवचम् पञ्चभिः पुनः धनुस्तस्यापि चिच्छेद शदबाणैर्महाबलः गयोन्यधनुरादाय दीप्तिमन्दम् हरे सुदम् जखानबाणविंशत्या जगर्जखनवद्बली तत्प्रहारेण समरे किञ्चिद् व्याकुलमानसः दीप्तिमानत जग्राह शक्रिम् ज्योतिर्मयीम् दृढाम् चिक्षेप भ्रामयित्वा गयाख्याय महात्मने सापि तद्धृदयम् भित्त्वा रुधिरम् महद राजन्मूर्चिदो राजन्मूर्च्छिदो भूद्रणाङ्गणे दीप्तिमांश्च धनुष्कोट्या कर्षयम्स्तद्गलेरिपुम् प्रद्युम्नस्य पुरप्रागा कदृजम् गरुडो यथा नरदुन्दुभयो ने दुर्देवदुन्दुभयस्तदा आकाशाद्ववृषुर्देवपुष्पवर्षाणि पार्थिवाः तदैव तेनापि समर्पिताङ्घ्रि श्रीकृष्णपुत्रो नृप शम्परारिः अवन्तिकाम् सम्प्रययौ महात्मा श्रीकर्णिकाम् स्वर्णमयी मिवालिः श्रुत्वा गतम् तं जयसेन राजः समर्चयामास स मालवाधिपः आनीय वृद्धान् सुबलिं महात्मनि प्रदर्शितो मैथिल तत्प्रभावविद राजाधिदेवीं स्वपिदुःपिदुः प्रणम्यतां कृष्णसुदो महामनाः विन्दानुविन्दौ परिरभ्य तत्सुतौ बभौ वृदो मालवदेशसम्भवैः प्रद्युम्नो धन्वीनाम् श्रेष्ठपुरी माहिष्मदीं ययौ यादवैस्वबलैः सार्धम् नर्मदां स सा ददर्शः राजितामम्बुकल्लोलैः शृङ्गारतिलकामिव ी पुष्पनिचयमुष्णीषम् मुद्रिकामिव वेदसी वेणुतरुभि पुष्पितैर्माधवैर्वृदैः सुरद्भिर्मूर्धिभि सुरद्भिर्मूर्तिमद्भिश्च देवैस्वर्गनदीमिव तत्तीरे शिबिरैर्युकृतप्रद्युम्नो यादवेश्वरः स्थितो भूद्यादवै सागम् देवैरिन्द्र इव प्रभुः hmm. इन्द्रनीलो महाराजज्ञानी माहिष्मदीपदिः स्वदूतम् प्रेषयामास प्रद्युम्नाय महात्मने प्रद्युम्न राजशिबिरे दूतो गत्वा कृताञ्जलिः उवाचवदनम् तत्र सर्वेषाम् शृण्वताम् नृपा दूत उवाच हस्तिना पुरनाथेन धार्तराष्ट्रेण धीमदा स्थापितो दिबलो वीरो बलिं कस्मै न दास्यति सुयोधनाय चेच्चाभिर्द्रव्यं यच्छदि नो बलाद योद्धव्यं च भवद्भिश्च विह्वलो हि रणोत्र श्रीप्रद्युम्न उवाच यथा गयो दूतकलिङ्गराड्यथा तथा विभूतोऽपि बलिम् प्रदास्यति नृपम् न जानाति महोग्रसेनकम् माहिष्मदी शोयमदीवरा जराट श्रीनारद उवाच उक्तो दूतस्तदैवाश्यु गत्वा माहिष्मदीपदिम् सभायाम् सभायां स प्रद्युम् न वचः यदूनामुद्भटम् सैन्यम् वीक्ष्यमाहिष्मदीपदिः गजानाम् पञ्चसाहस्रम् अयानाम् नियुदम् शुभं। रथानाम् अयुदम् जैत्रम् नीत्वा राजा विनिर्गतः बलिम् ददौ समेत्याशु प्रद्युम्नाय महात्मने यदि श्रीगर्गसंहितायाम् श्रीनारद बहुलाश्वसंवादे मरुधन्वमालव माहिष्मदी देशविजयो नाम षष्ठोऽध्यायः ओम् गर्गसंहितखण्डम् सवन् विश्वजित् खण्डम् अध्यायम् सवन् श्रीनारद उवाच प्रद्युम्नोऽध महावीर्यो जित्वा माहिष्मदीपदिम् विघर्षन् महदीं सेनाम् गुर्जराजं समाययौ गुर्जरस्याधिपं वीरमृष्यं नाम महाबलं जग्राहसेनया कार्ष्णिस्तुन्त याहिं यथा विराट सद्यस्तस्मात् बलिं नीत्वा यादवेन्द्रो महाबलः विकर्षन् महदीं सेनां चेदि दमकोशश्चिराजो वसुदेव स्वसुपदिः शिशुपालस्तस्य पुत्रकृष्णशत्रुप्रकीर्तितः आ भीयाय महाबुद्धिर्दमकोषं महाबलं न त्वा प्राह महाबुद्धिमुद्धवो बुद्धिसप्तमः महा। उद्धव उवाच राजन् देहि बलिम् तस्मा उग्रसेनाय भूभृते विजित्य नृपदीन्योऽसौ राजसूयं करिष्यति श्रीनारद उवाच युद्धं निचम्यवजनं दमघोषसुदखलः स्फुर दोष्ठो मन्युपरप्राखेदं सदसि सदसित्वरं। शिशुपाल उवाच दुरत्यया कालगदिरहो चित्रमिदं जगद विधे कालात्मकस्य विप्रजापत्ये भवेत् कलिः क्व मूर्खक्वच काक क्व क्व मूर्ख क्व ययादि शापाद्यदवो भ्रष्टराज्यपदा राज्यं स्वल्पं जलम् प्राप्य प्रोचलम् त्यापग इव आव अवंश सम्भवो राजा मूखपुत्रो हि पण्डितः निर्धनश्च धनम् प्राप्य तृणवन्मन्य जगद उग्रसनकधिनैराजत्वम् समुपागतः मन्त्रिणा वासुदेवेन पूजितः सबला तस्य मन्त्री वासुदेवो जरासन्धभयादृतं मधुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः आभीरस्याभिनन्दस्य पूर्वं पुत्रः प्रकीर्तितः वसुदेवो मन्यदेदं मत्पुत्रोऽयं गतत्रभः वासुदेव गौरवार्णादयं श्यामः कुदो भवद पितामहोऽपि गौरश्च दुःखहास्यमिदं वचः प्रद्युम्नं तत्सुदं जित्वा सबलं यादवैः सह कुशस्थलीं गमिष्यामि महीं कर्तुमयादवीम् श्रीनारद उवाच युक्त्युक्त्वा धनिर्वागायतो नौ चाक्षयसायकौ गन्तुमभ्युद्यदम् वीक्ष्य चे निराहजस्तमब्रवीद दमकोश उवाच शृणुपुत्र प्रवक्ष्यामि क्रोधं मा कुरु मा कुरु अकस्मादाचरेत् कार्यं साधनं न क्षमा समम् सुखं दानेन राजदे सामदानं गुणं सम्प्रेक्ष्य यादवाश्चेतिपाश्चैव ज्ञादिसम्बन्धिनः स्मृताः चेतिपानां च वृष्णीनां कलिं नेच्छामि तद्वदः श्रीनारद उवाच शिचुपालो बोधितोऽपि दमकोषेण धीमदा नोवाच किञ्चिद्विमनास्तूष्णीं भूतो महाकलः श्रुति श्रवाश्चेति स्वसा शुभाशूरसुदस्य राजन् समेत्यपुत्रं पुत्रम् शिशुपालसंज्ञम् प्रत्याह सम्यग्विनयान्विदा सा श्रुति श्रवा उवाच मा पुत्रखेदम् कुरुता कदाचिन्मा भूत्कलिश्चे दिव यादवानां ते माधुलोऽयम् तत्सुदयेव कृष्णः तस्यात्मजा यत्र समागतास्ते प्रद्युम्न मुख्याश्च दशो महान्तः सम्पूजनीयाश्च मया भवद्भिः संलालनीया न हि युद्धयोग्याः अहं गमिष्यामि सहार्द्रचित्ता नेतुं त्वया तादसमागतां स्तान् द्रष्टुं चिरोत्कण्ठमना महोत्सवै नैदादृशोऽयं समय कदाचिद शिशुपाल उवाच मम शत्रु रामकृष्णौ यदव शत्रवश्च मे खादयिष्यामि तान् सर्वान्यैरभं तु पुरा वैकुण्ठिनपुरे याभ्यां मे हेलनं कृतं विवाहो वरिदो मे वै रामकृष्णा वरी मम यदि यादवानां युवां पक्षं करिष्यथः तदा त्वं सः पित्रा जनिगृह्य निगडैर्दृढैः कारागारे कारयामि कंसस्वपितरौ यथा अन्यदा चेद्वधिष्यामि शपथो मे दु दुर्घटः श्रीनारद उवाच तद्वधपरुषं श्रुत्वा तूष्णीं यादेथ चे तद्वच स्वबलम् प्राप्य प्राह सर्वम् यथोदिदम् बाहिनि ध्वजिनि चैव प्रदिमाक्षौहिणीयुधा चतुर्धा शिशुपालस्य सेनायुक्ता बभूवः बहुलाश्व उवाच वाहिन्याद्याश्चया सेनास्तत्सङ्ख्यां वद मे प्रभो कृषयो हि प्रजानन्दिभूतं भव्यं भवत्परं श्रीनारद उवाच शतं द्विपानं रथिनां सहस्रं शतसंयुधम् अयुधं तुरकाणां च पतीनां लक्ष्मेवच सेनाया लक्षणं स्वल्पं द्विगुणं चतुरङ्गिणी चतुश्शतम् द्विपानां च रथानामयुतम् तथा चतुर्लक्षम् हयानां च पत्नीनामेककोटयः लोह कञ्चुकतं युक्ता समार्थ बलवाहनाः सत्रास्त्रज्ञा यत्र चूरवाहिनी सा बुधै द्वजिन्या द्विगुणि ज्ञेया मृदनां कथिदा पुरा ससा हसोऽपि शूरस्यात् सामन्तः शतशूर्यभृद सामन्तानां शदं बिभत्स गजी कथितो मृधे समरे सारथिं चाश्वान् रक्षेद्रधी च यः सेनां रक्षिधियो बाणैकध्यते स स्वसेनां रक्षयन् चत्रून् रणमण्डले योक्षौहिण्या समं युध्येत् सदा सोदिरधीस्मृतः इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे गुर्जरराष्ट्रा चेदिदेशगमनं नाम सप्तमोऽध्यायः ॐ गर्गसंहिता खण्डं शवन् विश्वजित्खण्डम् अध्यायम् एय्ट् श्रीनारद उवाच निर्गतशिशुपालोऽसौ सबलश्चन्द्रका पुराद पितरौ तौ तिरस्कृत्य स्वभावो ह्य सदामयं वाहिनीध्वजिनीभ्यां च द्युमश्चक्रौ विनिर्गतौ पृदनाक्षौहिणीभ्यां तौ रङ्गपिङ्गौ च मन्त्रिणौ शिशुपालमहासैन्यम् प्रलयाब्धिसमम् नृप संवेक्ष्य यदवस्तर्तुम् च जग्मुष्णपोतका वाहिनीसहितपश्चाद्युमान्नामा महाबलः युयुधे यादवै सार्धं शिशुपालप्रणोदिदः द्वयोश्च सैन्ययोर्बाणैरन्धकारो भवद्रणे हयपादरजो बृन्दैः प्रोद्धितायश्चादयन्नभ हयाश्च नृपधावन्धप्रोत्पदन्तो द्वीपान् प्रदि द्वीपाश्च सक्षदा युध्ये पादयन्धपदैर्द्विषः शुण्डादण्डस्य भूत्कारैर्मर्दयन्तयुधस्तदः कस्तूरीपत्रसिन्धूरक्तकम्बलमण्डिताः बाणाैर्गदा विपरिखैखड्गैशूलैश्च शक्तिभिः चिन्नाङ्घा पत्तयप्पे दुश्चिह्न बाह्वङ्घ्रिजानवः कश्चित् तीक्ष्णासि नाराजन् अयान्युध्ये द्विधाकरोद के जिद्दन्तान् सङ्गृहीत्वा कुम्भेषु करिणां गदाः अमात्यं भक्तिवाहं च मर्दयन्तो मृगेन्द्रवद उल्लङ्घयद सहसा गजवृन्दं महाबलाः पड्गप्रहारं कुर्वन्तो विदार्य परसैनिकान् अयस्पृष्टान् दृश्यन्ते दृश्यन्ते सैन्यवेगं च दृष्ट्वा क्रूरसमाययौ चकारदुर्दिनं बाणाैर्बाणौ कैश्चापि निर्गतैः चादयामास चाक्रूरं वर्षा सूर्यमिवाम्बुधः चिद्वा तद्बाणपटलमसिना गाम्भिनी सुधः शक्त्या तदाडतं वीरं द्युमन्दं क्रोधमूर्छिदं तत् प्रहारेण भिन्नाङ्गो मूर्च्छितो कटिकाद्वयं पुनरुद्धाय युयुधे शिशुपालसखाबलीं गृहीत्वा धगदां दुर्वीं लक्षभारविनिर्मिदां तदाडहृदि चाक्रूरं जगर्जखनवद्युमान् अक्रूरे तत्प्रहारेण किञ्चिद्व्याकुलमानसे यु यु धानस्तदा प्राभाज्या शब्दम् कारयन्मुहुः शिरस्तस्यािच्छेद बाणेकेन ना, बाणेनैकेन लीलया पदि देढ्युमधिष्या जौ वीरास्तस्य विदुद्रुगुः तदैव शक्रसम्प्राप्तो दृष्ट्वा सेनाम् पलायिताम् चूलम् शिक्षेप सहसा युयुधानाय धीमते युयुधानाश्च बाणौखैस्तचूलम् शतर्धा करोद शक्तो गृहीत्वपरितम् युयुधानम् तताडः युयुधानोऽर्जुनसखः क्षणम् मूर्छामवापः तदैव वीरसम्प्राप्तकृतवर्मा महाबलः शक्तस्याविरथम् साश्वम् बाण्ढैश्चूर्णी चकारः शक्रोऽपि चूर्णयामाशगदया तद्रथम् परं कृतवर्मारथं त्यक्त्वा शक्रम् जग्राहरोषधः पादयित्वा भूजाभ्यां तं चिक्षेप नृपयो जनम् शक्रे च पदिदे युद्धे शिशुपादप्रणोदितौ रङ्गपिङ्गौ मन्त्रिणौ तौ बाणवर्षं प्रकुर्वन्तौ मर्दयन्तावरीन्मृधे आजग्मदुर्मैथिलेन्द्र यथा वादहुदाशनौ उद्भटं तद्बलं वीक्षयादवेन्द्रविदुःसमः आदाय चापं सदसि प्रद्युम्नो वाक्यमब्रवीध प्रद्युम्न उवाच अहं गमिष्यामि पुरो रङ्गिङ्गमृधे जनाः रङ्गपिङ्गौ च दृश्यते महाबलबराक्रमौ श्रीनारद उवाच एतत् श्रुत्वा महाबाहु भानुकृष्णसुदो बलि सर्वेषामग्रदो भूत्वा भ्रातरं प्राहनीदि वद भानुरुवाच त्रैलोक्यं दृश्यते प्राप्तं यदा सम्मुखे प्रभो तदा चापटं कारो भविष्य दिनसंशयः केवलेनापि खड्गेन शिरसिरङ्गपिङ्गयोः चित्वा चात्र प्रवेक्ष्यामि कलिङ्गशकलाविव इति श्रीगर्गसंहिताय श्रीविश्वजित्कण्डे बहुलाश्वसंवादे व्युमच्चक्रवधो नामाष्टोऽध्यायः ओम् गर्गसंहिताखण्डम् सेवन् विश्वजित्खण्डम् अध्यायम् नैन् श्रीनारद उवाच इत्युक्त्वा शत्रुः भानुर्गृहीत्वा खड्गचर्मणि पदादिप्रययौ सैन्ये वने वन्यगरीवसः भानुखड्गेन शत्रूंस्ताञ्चिह्नबाहोंश्चकारः द्वीपान् हयान् सम्मुखस्तान् पार्श्वस्तांश्च द्विधाकरोद खड्गद्विधीयो ह्यकाकी रेजे चिन्तन्नरीमृधे नीहारमेखपटलैर्भानुर्भानुरिव स्फुरन् हस्थिनां छिन्नकुम्भानां भानुखड्गेन मैथिलमुक्ता निपेतुश्च यथा तारकाक्षीणकर्मणां क्षणमात्रेण तत्सैन्यं पादयित्वा रणाङ्गणे रङ्गपिङ्गोपरि प्रागाद्भानुर्वीरो महाबलः कृष्णदत्तेन खड्गेन रथौ रङ्गपिङ्गयौ चित्वाहयान्स नेदृंश्च बानु युद्धे द्विधा करोद खड्गौ नीत्वा रङ्गपिङ्गौ तेडतुस्तमहो फडौ भानुचर्मगदौ खड्गौ बानु बभूवधूः भानुगड्गप्रहारेण शिरसि रङ्गपिङ्गयोः युगपत्पेदतुर्युद्धे तदद्भुतमिवा भवद भानुस्तयोश्च शिरसि नीत्वा प्रद्युम्न संशय प्रद्युम्नसम्मुखे प्रद्युम्न आयय्यौ विजयि वीरश्लाकितसैन्यनायकैः दिविदुन्दुभयो ने दुर्नवदुन्दुभित्समम् आभू जय जय रावपुष्पवर्षा सुरैकृदाः रङ्गपिङ्गौ मृदौ श्रुत्वा शिशुपालोरुषान्विदः जैत्रं रथं समारुह्य यदूनां सम्मुखं जय्यौ मदच्युद्दीर्घजैर्दीर्घैरत्नकम्बलमण्डितैः स्वर्णनीडसमयुक्तैर्लोलखण्डाक्कणस्वनैः रथैश्च देवधिष्ण्याभैर् वायुवेगैस्तुरङ्गमैः विद्याधरसमैर्वीरैर्नादयन् वसुधातलं शिशुपालबलं दृष्ट्वा शक्रदत्तरधेतदः सर्वेषामग्रदकार्ष्णिप्रय्यौ धन्यीनां वरः शङ्गं दग्मौहरेः पुत्रो द्विशखं नादयन् नृप तेन नादेन शत्रूणां कम्पो भूधृतिमानद शिशुपालमः सैन्ये प्रासाद इव दुर्गमे चक्रे नाराजसोपानं सहस रुक्मिणी सुधः दमकोषसुधो धीमान् ब्रह्मास्त्रं संदधे यद्वै शिक्षितम् प्रचण्डम् सर्वतस्तेजो दृष्ट्वा श्रीरुक्मिणीसुधः ब्रह्मास्त्रेणापि तद्युद्धे सञ्जः रसलीलया शिचुपालो महाधीमानङ्गारास्त्रम् समादधे कामदग्न्येन यद्दत्तम् महेन्द्रे पर्वते नृप तस्मादङ्गारवर्षाभिकार्ष्णि सेनादिविकुल पर्जन्यास्त्रम् तदा कार्ष्णि समादधे स्थूलाभिर्मेखधाराभिरङ्घारा शान्तिमाययुः शिशुपालस्तदा क्रुद्धो गजास्त्रं तत्समादधे यतगस्तेन मुनिना शिक्षितं मलयाचले महोद्भटा गजा दीर्घा कोडि शास्ताद्विनिर्गदाः ते सैन्यं पादयमासु महात्मनः हाहाकारो महानास्ये यदूनां वाहिनीषु च प्रद्युम्नोधरणश्वाकी नृसिंहास्त्रं समादधे नृसिंहो निर्गतस्तस्मान्नादयन् वसुधातलं स्फुरत् षडो दीर्कवालो न कलाङ्गुलभीषणः न पुंकृदै शब्दैर्भक्षयं स्तान् गजान् रणे विदार्य गज कुम्भान्तमुत्पदन् भगवान् हरिः गजवृन्दम् मर्दयित्वा तत्रैवान्तरधीयत चिच्छेद परिकं तद्वै यमदण्डेन माधवः तदश्चैद्यो रुषाविष्टो गृहीत्वा खड्गचर्मणि प्रद्युम्नं तमुपादावत्पदङ्ग इव पावकं कार्ष्णिस्तदाडकं खड्गं यमदण्डेन वैगदः चूर्णि बभूव तेनापि निस्तृंशर्मणा सह पाशिदत्तेन पाशेन सह स यादवेश्वरः दमघोषसुदम्बध्वा विचकर्ष रणाङ्गणे शिशुपालं खादयितुं खड्गं जग्राहरोषदः तदैव तत्करौ साक्षात् गदो जग्राहवेगदः गद गदा उवाच परिपूर्णतमेनापि श्रीकृष्णेन महात्मना वधोयं देवभजनं वजनं मा श्रीनारद उवाच तथा कोलाहले जादेशिशुपालस्य बन्धने दमकोषो बलिं नीत्वा प्रागात्प्रद्युम्न सम्मुखे दृष्ट्वा त्यक्त्वा शास्त्राणि शिखृतः अग्रतस्य दीपं शश्वन्ननाम शिरसा भुवि मिलित्वा चाशिषं दत्त्वा प्रद्युम्नाय महात्मने दमघोषो महाराजप्राहगद्गदया गिरा उवाच प्रद्युम्न तु धन्योऽसि श्री शिरोमणे मत्पुत्रेण कृतं यद्वै तत्क्षमस्व दयानिधे प्रद्युम्न उवाच मम दोषो नदे चायं नदे पुत्रस्य हे प्रभो सर्वं कालकृतं मन्ये प्रियमप्रियमेव वा श्रीनारद उवाच युद्युक्तोमकोशोऽपि प्रद्युम्नेन प्रियन्द्रितः प्रद्युम्नेन प्रयन्त्रितः शिशुपालमोचयित्वा नीत्वा गाच्छन्द्रकां पुरीम् प्रद्युम्नस्य बलं श्रुत्वा साक्षात् श्रीकृष्णतेजसः न केऽपि युयुधुस्तेन राजानश्च बलिं ददुः यदि श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे रङ्गपिङ्गवधे शिशुपालयुद्धे चेदिदेश विजयो नाम नवमोऽध्यायः गर्गसंहितखण्डम् सवन् विश्वजित्खण्डम् अध्यायम् नयन् श्रीनारद उवाच मनुतीर्थे ततः स्नात्वा प्रद्युम्नो यदुभिः सह प्रययौ कम् कणादेशान्दुन्दुभिन्नादयन्मुहुः कङ्कणस्तोधमेधावी गदायुद्धविशारदः एकाकी मल्लयुद्धेन परीक्षन्नाय यौ बलम् प्रद्युम्नम् सबलम् प्राह शृणु मे यादवेश्वर गदायुद्धम् देहि मह्यं मद्बलम् नाशय प्रभो प्रद्युम्ना उवाच एकतो ह्येकतो वीरा बलवन्दो महीतले मानम्मा नम्मा कुरु हे मल्लविष्णुमायादिदुर्गमा वयं तु बहवो वीरास्त्वमेकाकी समागतः अधमोऽयं महामल्ल हि साम्प्रतं मल्ल उवाच यदा युद्धं न कुरुद भवन्दो बलशालिनः मत्पादो धोत्र निर्यान्तु तदा यास्यामि साम्प्रतम् श्रीनारद उवाच एवं वदति मल्ले वै सर्वे यादवपुङ्गवाः बभूवु क्रोधसंयुक्ता पश्यतस्तस्य मैथिला गतो गदां समादाय बलदेवानुजो बली तस्थौ सोऽपि गदां नीत्वा सर्वेषां पश्यतां नृप गदां वरिष्ठां चिक्षेपगदाय स महाबलः गदोपरि गदां नीत्वा स्वगदां प्राक्षिपद्गदः गदस्य गदया सोऽपिताडिधपदितो भुवि मृधेच्छाम् न चकारुक्षुद्धमन्रुधिरम् मुखाद कोङ्कणस्तोधमेधा परीक्षार्थं च भवदामेतत् कार्यं मया कृतं त्वमेव भगवान् साक्षात् कुतोऽहम् प्राकृतो जनः क्षमस्वमे पराधम् भो त्वामहं शरणं गदः श्रीनारद उवाच इत्युक्त्वाधबलिं दत्त्वा नमस्कृत्य हरे सुदं कोङ्कणस्थपुरीं प्रागान्मेधावीक्षत्रियोत्तमः कुडकाधिपतिं मौलिं मृगयायां विनिर्गतं जग्राहसमः बाहुसाम्भो जाम्बवदी सुतः कार्ष्णीस्तस्मात् बलिं नीत्वा दण्डकाख्यं वनं ययौ मुनीनामाश्रमान् पश्यन् स्वसैन्यपरिवारिदः निर्विन्ध्यां च पयोष्णीं च ताभीं स्नात्वा हरे सुधः शूर्पारकमहाक्षेत्रमार्याम् द्वैपायिनीम् ततः दृश्यमुखम् तदपश्यन् प्रवर्षणगिरिम् गतः पर्जन्यो भगवान् साक्षान्नित्यदा यत्र वर्षति गोकर्णाख्यम् शिवक्षेत्रम् दृष्ट्वा कार्ष्णिसैन्यकैः त्रिगर्तान् केरलान् देशान् ययौजेतुम् महाबलः अम्बष्टकेरलाधीश्रुत्वा वार्तां तु मन्मुखाद ददौ तस्मै बलिं शीघ्रम् प्रद्युम् नाय महात्मने कृष्णां वेणीं तदोत्तीर्य तैलङ्गान् विषयान् यय्यौ सैन्यपाद रजो वृन्दैरन्धी कुर्वन्नभस्थलं तैलङ्गस्याधिपो राजा विशालाक्षप्रकीर्तिदः पुरस्योपवने रे मे सुन्दरी गणसंवृदः मृदङ्गाद्यैश्च वादित्रैर्मधुरध्वनिसङ्गुलैः परैरप्सरसां रागैर्गीयमानोद्युराडिव सम्प्राकसुन्दरी रामा राज्ञी मन्तारमालिनी रजो व्याप्तं नभो वीक्ष्य शिष्यद्बिम्बाधरापरा मन्दारमालिन्युवाच राजन्न जानासि सदा विहारादहर्निशं कामविशाललोलः अहं न जानामि कदापि दुःखं मुखालकालिभ्रमरास्तवेशा द्वारावदिशाध्वरनागवल्ली चयं समुद्धाप्यदिशो जयार्थम् विचित्य सर्वान् नृपचे दिवान् समागतो सौ यदुराजराजः धुङ्कारशब्दम् नृणुदुन्दुभीनाम् चित्कारफूत्कारयुधम् द्विपानाम् कोदण्डङ्कारमयम् पराणाम् कल्पान्धसारस्वतनादकारम् त्वरम् बलिम् प्रेषय शम्बरारये प्रधावधि पश्य नरेन्द्रसुन्दरीः चूदप्रसूनाश्रमवारिवर्ष्णी प्रवेशास्फुटकेशमण्डनाः पत्नीवाक्यं तदश्रुत्वा विशालाक्षोदिहर्षिदः प्रद्युम्न सम्मुखोऽसोऽपि बलिं नीत्वा समायय तेन स्नात्वा पम्पासरस्तीर्थे महाराष्ट्रं ततो ययौ महाराष्ट्राधिपो राजा विमलो नाम वैष्णवं वैष्णवः भक्त्या परमया काशीं पूजयामास सर्वतः तदा हि कर्णाटपदि सहस्रजे स्वदसमानीयबलिं महात्मने सम्पूजयामास शुभार्थहेदवे श्री शम्बरायं जगत् प्रभुं परं प्रद्युम्नो भगवान् साक्षाद्याधवै सह मैथिला परुषान् विषयान् प्रागाजेतुं योगी वदे हजान् महारङ्गपुरे तत्र वृद्धशर्मा महामतिः भर्ता धश्रुतदेवाय वसुदेव स्वसुनृपा तस्य पुत्रो दन्तवक्त्रकृष्णशत्रुप्रकीर्तितः शिशुपाल इव क्रुद्धो योद्धुम् चक्रे मनस्वयम् मात्रापित्रा वादितोऽपि दैत्यो दैत्याननुव्रतः या दवान् खादयिष्यामि कोयमिद्धम् चकारः आदाय सगदाम गदाम् गुर्वीम् लक्षभारविनिर्मिताम् यकाकी प्रययौ योद्धुम् प्रद्युम्न बलसम्मुखे दन्तवक्त्रकृष्णवर्णं कज्जलाद्रिसमप्रभं ललजिह्वं घोररूपं तालवृक्षदस्योच्छृदं किरीडकुण्डलधरं हेमवर्णविभूषितं किङ्गिणीजालसंयुक्तं चलच्चरणनूपुरं कम्पयन्तं भुवं वेगात्पादयन्तं गिरीन्द्रुमान् कम्पयन्तं भुवम् बेगत् पादयन्तं गिरीन्द्रुमान् पादयन्तं स्वगतया कृदान्तमिव दुर्जनान् तं दृष्ट्वा यादवः सर्वे भयं प्रापुर्मृदाङ्गणे आगदे दन्तवक्त्रे जमहान् कोलाहलो ह्यभूद प्रद्युम् न प्रेषयामास धनुष्टङ्गारयन्मुहुः परश्वधै राजन बाणैपरश्वधैराज्निभिर्भृशुण्डिभिः तम् तेडुर्यादव सर्वे सर्वतोद्रिम् यथा गदाः दन्दवक्त्रस्वगदया करीन्द्रानुत्कटान् बहून् पादयामास राजेन्द्रभिन्नकुम्भस्थलान् मृधा कुम्भस्थलान् मृधे काचित् पादेषु चोन्नीय किङ्गिनी जालनादितान् सशृङ्खलान् सनाम् श्लोलखण्डारणस्वनान् वादस्थूलमिवाकाशे शिक्षे पशदयोजनम् शुण्डादण्डेषु कांश्चिद्वै गृहीत्वा दैत्यपुङ्गवः भ्रमयित्वा गजादिक्षु नन्दतः प्राक्षिपदृशा कां सिद्धजान् वंशयोश्च कक्षयोरुभयोरपि पद्भ्यामाक्रम्य शुशुभे दैत्यकालाग्निरुद्रवद रथान् ससुतान् रथान् ससूतान् सा श्वांश्च सध्वजान् समः रथान् शिक्षेपगगणे वीरपद्मानैव प्रभञ्च नः शुरगांश्च पदातीश्च प्राक्षिपद्गगने बलाद अध्वमुखा ऊर्ध्वमुखा राजपुत्रा महाबलाः स शत्रारत्नकेयुरसंयुक्ता स्तारका इव आकाशात् प्रपतं तस्ते भमं तुरुधिरं मुखाद विलोडयामास गदया दैत्यपुङ्कवसा दंष्ट्रह्या श्री श्री श्री प्रलयाब्धिं श्रीवराह इव मैथिल इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे विजये काङ्कणकुटकत्रिगर्तकेरलतैलङ्गमहाराष्ट्रकर्णाटविजये कारूषदेशगमनं नाम दशमोऽध्यायः ओम् गर्गसंहितखण्डं सेवन् विश्वजित्खण्डम् अध्यायम् इलवन् तदा श्रीकृष्णपुत्राणामष्टादशमहारथाः सक्षदं कारयामासुर्दन्दवक्त्रं महाबलं शुशुभे सक्षदो रक्तधारया लाक्षय वयथासौधम् प्रहारम् नानुचिन्तयन् कृतवर्मा च बाणौखैस्तम् जखानरणाङ्गणे युयुधानश्च खड्गेन शक्रियाक्रूरो महाबलम् सारणस्तम् कुठारेणा हनस्तम् रोहिणीसुतः दन्तवक्त्रोऽपि गतया युयुधानं तदाडः करेण कृदवर्माणमक्रूरं स्वाङ्घृणाहनद सारणं भुजवेगेन कारुषो रणदुर्मदः अक्रूरकृदवर्मा युयुधानोधसारणः निपे दुर्मूर्च्छिदा भूमौ मरुदा इव तदो गदां समादाय साम्बो जाम् भवदीसुधः गदोपरि गदां नीत्वा गदया गदां त्यक्त्वा साम्बं जाम् गृहीत्वा पादयामास भुजाभ्यां रणमण्डले साम्बस्तदा समुद्धाय गृहीत्वा पादयोश्च तम् अपोध यद्भूमि पृष्ठे तदद्भुतमिवा भवद दन्दवक्रः समुद्धाय साट्टहासं तदाकरोद ननादतेन ब्रह्माण्डं सप्तलोकैर्विलैः सह पदाकाढ्येन दिव्येन सहस्रादित्यवर्चसा हययुक्देन प्रद्युम्नं धन्विनां वरं दन्दवक्त्रोऽपि तं वीक्ष्य प्राहेदं परुषं उवाच यूयं च जादवाः सर्वे वृष्णयो ह्यङ्घपादयः अल्पसत्त्वा जनास्तुच्छा विद्रुदा युद्धभीरवः यया दिशापसम्भ्रष्टा भ्रष्टराज्या गदत्रपाः एकोऽहं बहवो यूयम् युष्माभिश्च कृतं अधर्मवर्तिभिस्तुच्चैर्धर्मशास्त्रविलोपिभिः पूर्वं पिदाते ते श्रीकृष्णो नंदस्य पशुरक्षकः गोपालोच्चिष्टभोजी च सोद्यवै यादवेश्वरः हैयं गवीन दध्याज्यदुग्धतक्रातिकं चोरयामासोपीना रिको रासमंडल जरा सन्धभया सो स्ररण गदयुनाधो भूद भीरुकाल सत्त स्वल्पराज्य मुक्रसमेस क्यल साराथे राजम दुरत्यया कालगदिर्जातम् चित्रमहो जगद अध्यास्ते सिंहशार्दूलम् शृगालो ह्यदि दुर्बलः श्रीप्रद्युम्न उवाच पुरा वै कुण्डिनपुरे यदूनाम् बलमूर्जितम् त्वया दृष्टम् न किम् त्वत्र पश्याद्यैव विनिन्दक युष्मान् सम्बन्धिनो ज्ञात्वा नेच्चे करूषप बलात्वम् युद्ध मा कार्षीर्धर्मशास्त्रम् त्वया कृतम् नन्दो द्रोणो गोलोके कृष्ण रोम राधारो मोद्भवा गोप्यस्ताश्च सर्वा इहा गताः काश्चित् पुण्यै कृधै पूर्वैः प्राप्ता कृष्णम् वरैः परैः परिपूर्णतमसाक्षात् श्रीकृष्णो भगवान् स्वयम् असङ्ख्यब्रह्माण्डपदिर्गोलोकेश परात्परः यस्मिन् सर्वाणि तेजांसि विलीयन्ते स्वतेजसि तं वदन्ति परे साक्षात्परिपूर्णतमः स्वयम् उग्रसेनोधराजेन्द्रो मरुदो नामयः पुरा श्रीकृष्णस्य वरेणासौ यादवेन्द्रो बभूवः निरङ्कुषो महामूर्खो विनिन्दसि महद्गुणं स न प्रार्थयदे किञ्चिद्यथा सिंहशिवारुतं श्रीनारद उवाच एवं वचस्तदा श्रुत्वा दन्तवक्त्रो मदोत्कटः कदा गुर्वीं समादाय प्राद्रवत्तद्रथोपरि कदयापादया मासहस्रं खोडकान्नदन् कोडकादुद्रुगुः सर्वे दृष्ट्वा रूपं भयङ्करं प्रद्युम्नोऽपि गदां नीत्वा तं तदाडदृढं हृदि तत्प्रहारेण दैत्येन्द्र किञ्चिद्व्याकुलमानसः तयोश्च गदया युद्धं खोररूपं बभूवः गदाभ्यां प्रहरं तौ द्वौ मार्दयन्तौ परस्परं दन्तवक्त्रो भुजाभ्यां तं गृहीत्वा श्रीहरे सुदं भूमौ निपादयामास सिंह, सिंह जसा प्रद्युम्नोऽभि गृहीत्वा भुजयोर्बलाद भ्रामयित्वा भुजाभ्यां तं पादयामास भूतले प्रद्युम्नस्य प्रहारेण सोपद्रुधिरं वमन् चूर्णितास्ति खिन्नगात्रो मूर्च्छिदो विह्वलाकृतिः गिरीन्द्र इव भूपृष्ठे रेजे शक्रायुधाहदः तत्प्रहारेण वसुधा चचाल चचालसचला भवत् विचेलुर्दिग्गजास्तारासमुद्राश्च चकिरे पादशब्देन राजेन्द्रत्रिलोकीबधरीकृदा तथैव कारुषापधिर्महात्मा श्रीवृद्धशर्मा श्रुतदेवया च राज्ञा महारङ्गपुराद्यदूनाम् समाययौ सुन्दरसन्धिकारी दत्त्वा बलिं मैथिलशम्भरारये सुदं गृहीत्वा कृतसन्धिरग्रदः तदा यदूनां प्रभरै प्रभुजितः पुनर्महारङ्गपुरं समाययौ युद्धि श्रीगर्गसंहितायां श्री श्रीनारदबहुलाश्वसंवादे दन्तवक्त्रयुद्धे करुषदेशविजयोन्नामैकादशोऽध्यायः 7 गर्गसंहितखण्डं सेवन् विश्वजित्खण्डम् 12 ट्वेल् श्रीनारद उवाच अर्णवं दक्षिणं स्नात्वा प्रद्युम्नो यादवाधिपः उशीनरांस्तदो जेदुमाजगामबलैः सह कोडिस्श कोडिशो गावो यत्र देशे चरन्ति हि गोपालमण्डलैर्युक्ता व्रचन्त्यो भव्यमूर्तयः औशीनराः क्षीरवाना गौरवर्णा मनोहराः वी हय्यङ्गवीनमादायते ययु कार्ष्णिसम्मुखे तैपूजितः शम्भरारिर्दधौतेभ्यो महाधनं गजान् रथान्हयान् रत्नवस्त्रभूषादिहर्षितः चम्पावदीनाम पुरीमणिरत्नसमन्विता विराजते यत्र नृपैः सर्पैर्भोगवती यथा चम्पावतीपतिर्वीरो नाम्ना हेमाङ्गदो नृपः नीत्वा बलिं समेत्याशुश्रीकार्ष्णीं प्रणनामः तस्मै तुष्ट शम्परारिर्मालां किञ्चल्किनीं ददौ सहस्रदलशोभाढ्यं पद्मं दिव्यं ददौ पुनः अध कार्ष्णिर्मः बाहुस्वसैन्यपरिवारितः विदर्भान् प्रययौ पदिरागदं रुक्मिणी सुदम् आनीय पूजयामास ससैन्यं बहुभिर्धनैः मातामहं तदो रुक्मिणी नन्दनो बली कुन्द देशांश्च दरदान् प्रययौ यादवेश्वरः श्रीखण्डकेतकीपुष्पगन्धाकृते मलयाचले अगस्त्यं मुनिशार्दूलं पीताब्धिं स ददर्शः कृताञ्जलिपुटः कार्ष्णिर्नमस्कृत्य महामुनिं स्थितो भूदुडजे साक्षादाशीर्भिरभिनन्दितः श्रीप्रद्युम्न उवाज दृश्यम् पदार्थदु जगत् सत्यवद्वर्तते कथम् मुक्तो ब्रह्मांशो भूत्वा बध्यतेयम् कथम् गुणैः यदत्प्रश्नम् मम ब्रूहि निधरां मुनिसत्तम त्वम् सर्वविद्दिव्यचक्षुः सर्वब्रह्मविदाम्बरः अगस्त्य उवाच त्वं साक्षात् कृष्णचन्द्रस्य परिपूर्णतमस्य च पुत्रोस्य पृच्छ सेमां से वै लीला मात्रमिदं वचः लोकसङ्ग्रहमेवार्थं कुर्वन् देवो हरिर्यधा तथा नृणां च कल्याणं कुर्वन् विचरसि प्रभो यथा सत्यस्य सूर्यस्य बिम्बं वारिशु सत्यवद दृश्यदे सत्यवद्दृश्यं प्रधानपरयोस्तथा काचे मुखम् गुणे सर्पं सैकदे जीवनं यथा तथायं सन्दह प्रेक्षदा स्वयं। प्रद्युम्न उवाच कथं न बध्यदे देही येनोपायेन तद्वद वैराग्येण दृढेनापि ब्रूहि ब्रह्मविदाम्बर अगस्त्य उवाच विवेकं यः समाश्रित्य ब्रह्मसनादनं मनोमयं जगन्मत्वा सव्रजेत् परमं पदं जन्ममृत्युशोकमोहौ जरा बालयुवादयः अहं दुःखं शोकः क्षुधारदिः आधिर्भयं तस्य राजन्न भवेद कदाचन आत्मा निरीहो ह्यतनुः सर्वतश्चानकङ्कृतिः शुद्धो गुणाश्रयसाक्षात्परो निष्कल आत्मधृकज्ञानात्मकः सदा पूर्णो विदितो यो मुनीश्वरैः तं ब्रह्मपरमात्मानम् ज्ञात्वा यं विचरेत् सुखी अस्मिन् चयाने जागर्ति सर्वं पश्यदि यः पुमान् नायं तं वेत्ति पश्यन्तं न पश्यदि कदाचन न भोग्निपवनकोष्ठ काष्ठप्रोद्गदरेणुभिः न सज्जं ते गुणैर्ब्रह्म वर्णश्च स्फटिको लक्षणाभिर्ध्वनिव्यङ्ग्यैर्ज्ञायदेन कदाचन कुतस्तु लौकिकैर्वाक्यैस्तस्मै श्रीब्रह्मणे नमः केचित् कर्म वदन्त्येनं केचित् कालं तथा परे कर्दारं योगमपरे साङ्ख्यं ब्रह्म वदन्ति परमात्मानं वासुदेवं वदन्ति के प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा विचार्य तद्ब्रह्मपरं निःसङ्गो विचरेदिह यथाम्बसा प्रचलदा तरवोऽपि चला इव चक्षुषा तथा गुणानां भ्रमणो भ्रमदा मनसा भ्राम्यमाण सदा राजन् करेणालादचक्रवद करिष्यामि दिममेदं तव च ब्रुवन् त्वमहं च सुखी दुःखी सदा ज्ञानविमोहितः स त्वं रजस्तमयिति गुणाः तैरिदं जगदा व्याप्तमोदप्रोदपडं व्यधा ऊर्ध्वं गच्छन्ति सत्वस्ता मध्ये तिष्ठन्ति राजसाः जगन्य अधो गच्छन्ति तामसाः अन्धकारे गुणात्कार्ष्णे सर्पबुद्धिर्भवेद्यथा आरान्मरीचिकां वारि तथेदं मन्यदे जगद गदागदम् सुखं विद्धि यथा मण्डलवर्तिनां तथा नृणां च तद्दुःखं यथा नरकवासिनम् कनावलिर्देहगुणा अहोरात्रमृदेर्यथा यथा सार्थं तदा दृश्यं न किञ्चित् सर्वदैव हि पक्षे जादे यथा नीडात्पारे यथोटु पद ज्ञाने प्राप्ते तथा लोगा दर्पण किं प्रयोजन तथा मगम निधायासु विचरे सदृ मुथेन्दुत पात्रु ये तथो भगवान्मा व्यवस्थित खड़े मठे यहाँ वर्देन्दर् बिहिर्मह तथा परात्मा निर्लिप्तो देहिषु स्वकृतेषु च यत्कृष्णभक्तशान्दात्मा ज्ञाननिष्ठो विरागवान् तं न स्पृशं गुणाकानिव विसिनीदलं ज्ञानी सदानं दमयो बालवद्विजरेतनुम् न पश्यति धृतं वा सो मदिरामदमत्तवद सूर्योदये यथा वस्तु गृहे राजन्प्रदृश्यते दूरीकृत्य तथा ज्ञानं साक्षात् तत्त्वं ततो बृहत् यथेन्द्रियं पृथग्द्वारैरार्थो बहुगुणाश्रयः नाने यदेतथा ब्रह्म जिभिः शास्त्रवस्मभिः परं पदं पदं त्येतत् केचिद्वै वैष्णवं नृपा केचिद्वै व्याप्य वैकुण्ठं शान्तं केऽपि ततः कैवल्यं तद्ब्रह्म केचित्परमं धामचाव्ययम् अक्षरं च परां काष्ठां गोलोकं प्रकृतेः परं केचिन्निकुञ्चम् विशदं वदन्तीह पुराविदः ज्ञानवैराग्यभक्तिभ्यः प्राप्नोतीह न चान्यदः श्रीकृष्णचण्डद्रस्य हरेपरस्य कैवल्यनाथस्य परात्परस्य व्रजत्पदं श्रीपुरुषोत्तमस्य यत्प्राप्य भक्तो न निवर्ततेथ श्री नारद उवाच यदि भागवदं ज्ञानं श्रुत्वा कार्ष्णिर्महामुनिम् अगस्त्यं पूजयामासभक्त्या नत्वा कृताञ्जलिः यदि श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे उशीनरविदर्भकुन्द दरदष्टे श न्द दरददेशविजये अगस्त्यकार्ष्णिज्ञानप्रस्तावो नामद्वादशोऽध्यायः ओम्